िरमादयम् सलिलमेव स प्रजापति पुष्करपर्णे समभवने सत्यागच्छति सत्कर्मणा करोति सदेशार्जनोक्ता कामस्तदग्रे समवर्तताभिः मनसोदेव प्रथमञ्जलाभि सर्वबन्धमजलविन्दन् हृदप्रदेशमने उपैनन्तपदता सर्वः सत्वा शरीरमधोनता सत्ययम् भागम् समाधयेत् ततो गुणाः केसपमातदुनाथय उपरिष्ठन् हेन हैवेकादसाः हे मालाः सहस्रशेषः पुरुषः सहसाक्षालोष्ठले समग्रवेल क्षरे हरागे हठाणः केतद्रक्षिपादधाय हेदाश्चिमे सदभवाद्यक्षरे सा दक्षिणादिके हथानः केतपश्चादुपादधाय आदि बायोडिती चतलवाउ इड़ भुर छदे साप्रची जीचरके हांलोगेथ भुर� Crym हजरोगेथ उत्रचरके सोःभी जीचरके हांलोगेथ भुर्माद्यों आदे आदि पूषणिनी का तो अभी भुर तो जीचरके शेयंतगे हांलोगे भुरक् ततोदेव महिष्याः गन्धर्वादस्तोदरक्षन्ध्वादिक्रतोपदाफलन् हाध्वाकुण्ठास्तोदलक्षन् तस्माफलन् विप्रध्वे सौहान् हरेशाक्षमोक्ता हरेना जगन्ते इदगम् तस्माभिदगम् ब्रह्मत्वयम् प्रे कस्मादिदगम् आत्मानम् विधायत्रा विषय तदेशाख्यमो मोक्षा किषाय लोकानि विधाय भूतानि किसायसर्वाः परितोपरिपृशजातस्य आत्म आत्मानमुदम् वित्मा सर्वमवरुद्ध्याप्रविशते हेदम् वेदा तदस्कैलाभो गृह्णाते सर्वादिवापारम् रोच स हेत्व वृक्षे का नैवावृन्धे हादवदिवश्या गृह्णादि परश्चादबन्धादे चेतावेदम् भवत्या लक्षणे एता लक्ष्मणे रामः एतलक्षणे हस्ता दक्षिणार्थस्य लक्ष्मिदलः सा बलागन्भागे सा पश्चाद्पद्भागे प्रयच्छता वे सा वः पश्चादेव प्रयतिष्ठते आंतियर्गंद्राने। आधत्र जवबढद्राथे। ऊचतां बागे का महंदीर जवाद़ जवदीर्वामुदीर्वावन्गे çृर जवबढद्राथे। तरचतां बाद्रचत प्राचृ। संपार जवबढद्राने। संपार जवबढद्रादे। यपेसं अतो एवम् वद्याः अमुष्यामेव प्रतिष्ठये त्रिक्षोपदधापः अन्नम् वा आवश्य वा अन्नम् जायते हेतवरुणाः ृग्नः पुरुषः शेतावद्वाला <Sess> ये हवामेवणस्य म्पादः जवत्पादः सुश पादः भगवतःपादः याज्यैवक्षले एवम् अज्ञम् प्रणेयोपसमाधाय सहृदयतापधारेदौर्णपाः सन्देश सर्वे कृते अथवा पुरः कावित्रपल् भोगिर्त्यनुम् मन्यामहे सा नामा एकैका सम् धीर्याये समज्यञ्च मदे सत्यञ्चन् बाणः समज्यञ्चिनस्थम्यञ्चन् बाणः समज्यञ्चि मदे नार्यञ्चन बाणः समज्यन्ते मुदे वाणुवाच्यमासमद्यन् बाणः समज्यन्ते नय सुरनृके मध्यञ्च अन्येण्यागत्यव्यस्ति वेदा साजापत्यो वाय सौवर्ये राजापत्याः प्रजाः जयागारम् भवेत् हम् वेदा सुगामत्रम् वेदा संज्ञानम् वागे सत्त्वम् खिलापः पशूनामेव तम् ज्ञाने किञ्चिमुशुमान् भवति स एवम् वेद वृष्टिकामश्चिन्वेद आमोहे अस्ते सद्यम् आवृषभाम् वेद आमयादेशिन्वेद हाभोजम् वैगजमेवाज्ञै भवति सर्वमाचले अभितरव्यश्चिन् वेदा सत्यमेव भ्रासुर्ये भक्तः चेत् प्रणपयनम् तैजस्तामो हृदकामः सम्भवत्रकाम स्वप्रकामश्चेता चेतावद्वेद अमृतम्बाभावः अमृतश्चानन्तरित्ये नाप्तमोत्रपदेशुर्याद हरिवेद नोभागे लौराम्ये एतस्याज्ञलाहाय समस्तवर्णादिवेद्यम् वाभ्यच्छेदेन एतस्याज्ञेणभ्यारोहाय समो हत्या भवन्ति अघालुकावः स एतमद्य शुचयमेवम् वेद किमालुकम् भुवनागीतदेव इन्दस्तविश्वेतदेवाः त्यजञ्च लम् च प्रजाम् च आदिक्लेन्द्रवचे आक्लेयन्त्रे अस्माकम् भवत्वब्मानि सत्पाम् फलम् परिरे कल्पयन् शेते देहम् कल्पयन्तो मातुले लेक्षास्वक्षतमास्त खड्जविषत्सम्भाषाः कलाज्ञत्वमस्तदृत्ताः सौर्येण भेदोगतः युवाः अष्टाचक्र अमलद्वारा केवानाम् पूरयोध्या सत्यागुणयक्रोशः सर्गो लोकोषादः स्वगैतानाम् ब्रह्मणाम् वेदायनाम्पुरीम् सत्मये ब्रह्म च ब्रह्मा च आयत्येत्यम् भजानन्द विभ्राजमानागृहये हाम्बरीता परमं विरन्मये ब्रह्मा पराजिता फलाये च जामये फलागे च नागरे ह्यजामुत्पजान् दे हृत्वा चकुमारीमन्त्रयते सद्योषत्य हरिष्णे शक्तिञ्च क्रियते अग्निस्तलो भवे अचना दश्रा इन्द्रमज्यन्ते मज्यन्ते हस्तयित्समुदेशिताः अस्मान् अवकाशमुत्माश्चेददाश्यक्तिभिः हवेदेव नूतनाः स्वयत्नम् अस्मै द्रमणञ्जनमहाश्वर्यः कुमारेण गणेन जायेताः हृसारेण भयाः पुत्रपौत्रकान् हे ह्यमलाजकान् सदमिन्न सरलः हलोब्रह्मविधम् विदकाम् च गमस्यता मरुणस्याश्रिमज्ञरायताम् यवस्तो सत्ये वास्ति सदानः हेनागोध्वनम् पुत्रानागो देवे हाहितांहतः परिपादव्यभुक्षाम् जङ्घुण्डवनवचनम् अर्जेनावेदः हेयशाक्षाम् अन्यम् कृत्याञ्चले ुकाव अज्ञयनादे संसृशः सज्जन्यायप्रकाशता स्वपुत्रायः समो यच्छतु इदम् वच्जन्याय स्वराजेः स्विरोतायत्वम् पत्ने गोपाः स्वगृहमोदीनाम् प्रवाहो चर्वताम् पर्जन्यः कुरुषीणाम् पुनर्मानेन्द्रियम् पुनराजः पुनर्भः पुनर्ब्राह्मणमे पुमा पुनर्भेरीमत्पादज्जानः पुनराजेधायच्छाय रक्षते हेलेखरे हन्महाराय पुनः शेन माम् कृतम् कुरु शयनभुः प्रजलम् कुरु हिलाय अवैःश्वरत्सदः शिरोभे हि वस्त्राः हे अपोस्कन्ति केतन आष्टयमायाम्बे श्रवणः प्रथगन्धः परम्परम् पुरश्चक्रगुन्दः शाश्वम् आस्थायादिनो बलिम् चक्रेभूतानि बलिमावहन्ति षमिङ्गालोहस्त्रिरण्यमश्वान् यज्ञस्य शब्दम् विजायम् विवर्जनेन क्रौञ्चे च जैरागेशमहागिनौ सर्वाक्षादकमन्त्रा ककुम्भाञ्जकरन्तः सर्वोत्रम् हरिबलिकुम्भयेन चिरञ्जनाभयौ जयराजाजम्बलिः सर्वभूताभिवलयेन महिः हठवलिकम्भत्वापजय क्षब्दम् क्षत्रम् जैवेष्टवः ताम्भरावयत्नः स्वस्य स्वमादिपुंसेः अस्मात्मनिश्चान्तमध्ये सदनमद्यमाधेता चक्रणेतकर्मेता शिरोषाधोह शिरोसाधवः शिरोषास्वः शिरोसाधोस्थवत्सः सर्वे लोकानाम् आधिपत्येते अदनमग्नि शक्मितकर्मप्रयुञ्जीता शिरोसाधो स्वाहाः शिरोसाधुवस्वाहाः शिरोधास्वस्वाहाः शिरोस्वाहास्य काले सर्वाः गुणेन हरिब्राह्णीनाः सत्मिन्नकाले अत्रमाध्यापये सर्वास्थाः सिद्ध्यन्ते हम् वेदानताम् सर्वास्थाः सिद्ध्यन्ते सत्यविकाशुको ध्याता ममान्तदहृगेश्वरः सत्पायिण्डम् जोगे हा हा राजागत्कृतकृणाय बुमहे हमे कामान् कामकामाय मह्यम् कामेश्वरो वेयेश्व मनोददातो उभय राजवेश्ववनाय महाराजाय नमः एतवो अरुणासस्का धायम् शिवानष्टम् समापनन्तु सुःखादरी माते संरत्सरमेतत्मौदामासौ निगमत्समाजेन तस्य नियमविशेषाः श्रिगमणमुदमपत्सरिः शिवकालपालभक्त ौ लम्बरेम्बलिगो नायम् कुञ्चेत हरञ्जयवायवाय भोध्याय बृम्भणे क्षात्रये चन्द्रमणे नक्षत्रयधत्सराज अरुणागाराय णोमाः क्तस्य भूमिम् शैवे शयक्षिणा कटुम्बङ्गक्षौमम् अन्यद्वा शुक्रम् यथा शक्तिवः एवव्यक्त्वात्राविधम्भेन अरण्ये भीलीजा भवति तमस्यैवन्या भवति दधातु ॐ शाम् तिष्ठाम् तिष्ठान्ति नमो ब्रह्मणे नमोत्तमकृसर्ये नमो रीभ्या समो वाचे नमो वाचस्फलये नमो विस्थले दृहते करोमि ओम् शाम् तिष्ठाम् तिश्रान्ते हवे देवानां चादुराणाञ्च यज्ञौ प्रसदावात्तां वयस्य लवकमेव सन्नक्ष नव दैवाचनन्द्रम्भर्येण तवदैव देवास्यैरामुक्केण प्रादानव्यलाभवन्तेन स्वर्गं लवकमायम् कुदलेन वैयज्ञेन देवा स्वर्गं लवकमायन्न प्रसलयनागुलान् परापालयन् पृथुनावै यज्ञानुवेदिनाय नुवैदयक्य ब्राह्मणायज्ञामलेक्षणे देवदेवदत्तमात्यज्ञामलेवारिणम् वासो वा रक्षागुं जनावनवाके तद्रमलेच्छन्दरान् प्रजापदेन वनवरे प्रजापलब्देच्छन्त रक्षागत्यादित्यै योषयन् दयावदत्तमन्वक्तानि हवावेतानि रक्षागुं जनाय क्रियाभिमन्त्रेनां भगादान्यवावेतै ब्रह्मवागिन पूर्वाभिमुखान् सञ्जाय यत्रभिमन्त्रिता संरक्षबन्दि रक्षागन्त्य मन्त्रयुणे रक्षिबन्दिरक्षिणम् प्रक्रमन्दिरे न वानमवधो हन्मन्त्यन्द्रमत्रयन्द्रमालित्रमभिध्यायम् कुर्वन्धाना विद्वान् सकलम् सेवालित्वाम् हैवदन्तम् मात्रे एवं वेदा देवयम् हादित्यास्मान् मामिस्तै न मामिता हेवाजीवनकाम्यायद्वाचानु नमोहिमा अस्मान्नवास्तयेन ज्यावादगी हृदयन प्रकुन्दरस्पदी तदा न पाक्येन दोयच्छिञ्जानुतमोहिमा इन्द्राज्ञे निद्रावरुणवतो मम दाता बृहत्पेः चेनामुण सौखण्डादिमः सजातलगुंसा मृतजाय गुंसाध्याय दगुंसामृतभागणे गतः खादम् जैपुरकङ्कने लक्षस्वार्थवत्साञ्जातमध्ये माता भावृत्या ममरुत्यामख्येव्यागेमामयाम् अज्ञम् मातत्पादेन लोकाधिगमस्य प्रमुगादिष्कृता येन प्रोहन्नवान्यम् सभोभयेन सूर्यम् तमदोजम् प्रमोदविश्वाय आचरादेश्योतिराज्योतिराप्रेत् धेन यमश्च निपिनादरामि हेत्र लग्ने वन्य विदत्थे दधामि हिन्मयि मातायदा कृषयम्प्रामाणि कृषयदायधात्वाया विपन्नोन्ने त्वमज्ञे अयाधिनम् बहोगादित्वन्वादम् जगर्जे अज्ञत्पालिन्तरं विदारोपवञ्चकलभ्याक्षाणाम् लघ्नमुपरिः अभ्रम् वच्चाभृणानि अभ्रम्बच्चैराकेन्द्रे सत्पन्नाग्ने हे हे सद्यक्षमनानुगो दोराब्दोरमकेशतम् हर्यक्षमकेशदे नृत्या हे नयोस्मत्सवच्छा वेदवस्मै ऋतु वामरेन्दुदाभ्यान् धनेनानुभरेण च हेनान्यस्मत्सवच्छा वेदवस्मै ऋतु वामदे हंहस्तदावय साधं धनो यमसादम् यगेन आस्तार रष्ट अजब तर आव्यो ना कुल पुल्द रिकम आजित्र विष्पतो तद रिमजे नहाँ अज्तार आजब देष्पटो तर आजिकम जुवामिदे आजब दाक्ने अबिगो जिगानो फिरत्पुर जिगो अब्रजेदे लबेट्सा मुद्दार लो जैम आदेवा आत्मादिशेवाग्नायोगम् विनः हादेव भवन्तः पुरोहितः समीन हे महाभयम् खग्ने जातान्त्वं तज्जानञ्जादमे नोदस्व हस्मेले समनाहे लञ्जयस्यामृवलोषबुद्धौ सरलान् प्रणुदानस्तवत्सान् जादवेदत्वा हरिनामप्रमानो वयज्ञणुदानस्तवत्सान् अज्ञैलो नाभिवान स्वस्मज्ञनाफला हज्ञैलो नाभिदानगतमानामिस्तः अरम्भयम् भविषम् गत्यारभ्यमज्ञैभिश्च नश्चपदश्चपाय स्वीयम् वृत्ति सर्वम् पावनम् नमोहताम् त्वपद्मायोमत्वाभिताः हिद्भक्ते रप्रक्षाय लो मादस्याख्ये विकिञ्चन प्रोमाञ्जय श्रीराजवे लोयञ्जराहन् जय श्रियस्तमाम् सर्वस्थानद्यमनादेशाद्वेषाद्यत्राः सकुशलम् ब्रह्म शकुंशिलम् वेद्याम्बलम् षकुशलम् षब्स्य बलोहिदः जयम् बाहोबलम् क्षणायन्द्रह्मणामि स्वानुयामि स्वाहा पुनर्मनः पुनराजम् महागात् पुनश्चक्षः पुनश्वम् महागात् पुनः पुनराहूरम् महागात् पुनश्चित्तम् पुनराहे महागाच हे स्वारो नेतत्सप्तनोपासताम् दरितानि स्वाहा हे स्वानराय श्रिवेदगामौर्येण देवदासो त्रे शक्रम् धर्मे महासत्सुवाणी हरे युवगेनामदारुरत्रेच्छामेकमोदनम् हे फलोकान् कृपन्धान्यञ्चायवध्वकम् भवने लक्ति सर्वान् असवामिष्ट्वा सप्तजानन्द्रेद विद्वान् गजामेम् समलञ्चरेण कन्दम् कमन्वये गयाञ्चरम् जयेषाम् सत्यम् विद्यमान गैप्रयुक्तान्ते क्षट् भागं तत्सर्वेषाम् ूतमानम् पन्थाफुलेन हेद्वाम् भवत्सम्बलविक्रैक लग्नौ दत्सेत्र एकजागा चादरम् विनलम् वाद एवम् विना आर्यकालिकपत्यम् अभिलक्त योजपुराम्भवानिजाकाय यत्र गुहा चेभ्याय लोकम् बन्वायाः पुरा सर्वेण तुम् हरन्नवत्यः चाकरिष्यन् यद्देवानाय चक्षुषा भगवत् त्रिदेवे सुलग् मादत्माधरम् गृणोद धाम्बा गौर्य मृदगामयामयिम् हे देवा गौ एवम् मातत्त्वाया मनसा वाचा कृतमेन सर्वस्मासाधनम् आदरधनावो दलम्भो साय जलाय प्रविष्टाण्डायण्डलण्डन् प्रधया बृहन् नगवन्धानेन काल बृहन् मलिकण्डवायनायस्यामय कानि कालवक्षयजेवादेलये राज्यन्दुपदमेष्माय प्रियच्छाया कृमस्तु मे ोऽस्मान्देत्य पुणैवस्य कृतपालेन वेणो पुच्चयास्तवलेन क्षतवेतैश्चेत् भजलं वत्परा देवात्मानं े प्रेक्षलं वत्पत्प स्थानं बुणे जयद्वादशरात्रे अप्रेक्षसफल विद्वादशमादास्कं वत्सरस्त्वं वत्सरा देवात् पानम् बुणे जयद्रात्रे देक्षसफल जयद्वारवस्कं वत्सरस्कं वत्सरा देवात् पानम् बुणे जय विश्लवरात्रे जयत्रेक्षव नित्यबला गायत्री गायत्रिया देवास्थानं बुणे जैनभागुन्तमस्त्ये यानत्रियमुखेश सौन्दर्यादीर्निभुता भरत्रण्यकाव्यक्षालेक्षातोद्भरवे यात्रे भरत्काले चो सन्धानात्सोभवेदात्मनोऽनुपदाधाया हजान हवे प्रत्येगत्रवत्सान्रह्मच्चगम्भ्यापमत्रयेणामरे देवनापामात्रेतं चम्प्रच्छामश्चन्तमाहलं जयनायञ्जगेदा प्रगावृदयो देवानानुभमेतयो यच्छामानुमा उदयो जगर्वाणि हृदयो यच्छामनान् प्राणानि गन् ृदयो देवानाम् भवन्त हेतुलम्बात्मानवमाहतनो देवास्वम् लवकमाय ब्रह्मस्तायज्ञगच्छन् हन्तय जय महाय ज्ञाकल प्रलायुरञ्जय ज्ञे ज्ञ कविदन्तरे ज्यक्षरे भोले जले ज्ञानन्दरा सन्मनस्य जन्ध्यक्षरे स्वाहिता कोर्याश्च जैन् तथाभिवहं जय सामानो धनवार्य कोर्यायता पुराणाय कङ्काले कोर्याश्च जैन् तथाभिवहन् जयद्रैवयालं जगता जगत् साम ेवयन्ति <laughs> यज्ञानक्षमाणत्रामाध्ये चां रागेच्छाम् भोरालत्यक्षणेन वृक्षास्तां वणिज्येद्यपरिमृत्य सकलवस्त्रक्षग्रुलेनालिगेश्व प्रेमयमालभ्ययक्षरावय रजप्रेणालि परिमृचयेन यक्षगवस्त्रेण रामायक्षव्यम् बाणम् बालौ प्रोक्त यक्ष रचक्रुलेनालिगे ्राह्मणानिकासान्धेभक्ते जलभक्षं वृत्ता ब्रह्मगुरुपाणि पादो मृत्ता परवित्रिवद्रैलत्रें विद्यां लैरा क्षरद्य वैवागरिकरिवारिच्च एतद्वेदसत्यं च देव वाच्यं च प्राण्टावित्रेत्रेन्दु बालगुण्ठविदाज्ञान एवदासम् जले रामे मदरा स्वाजागमधेर्ये जलिवानक्षम् जयपादौ उदायण्यैबुतवाचोलक्षन्मतम् मृलन्मुदागेण बुतविगा धेर्ये स्वाहायन्तरस्यैवन्याभो एवम् विद्वान् स्वाहायमहेरेण मो ब्रह्मणेण मोक्रम्ययेण पृथव्येण मोदयेभ्यः नमो बादे नमो बालस्परे नमो विष्णुले हृदये करोमि मध्यञ्जले ममलमती दासौरिद्राणाम् मरत्तस्मात्तरे तव दृशेशा चित्रम् देवा नामलकारे गण्डक्षत्रे ृज आत्मा जगत सत्तारे सद्य प्रजा सद्य सन्यात्रे ऋलवायत्री एतस्य यज्ञस्तमेव यज्ञदज्जवर्गं हरुत्वलभयत्कालोयवशयत्रोयत्कालभागुरात्माना भात्या जगद्य एवं यद्वान् यज्ञवर्गति विद्योनमानेश्वरे च वक्तोमाने वाग्याहमा भात्यायाविष्मात् भागमधिलेखप एव रक्षत्रमाध्यायुत्तरङ्गारकं गौभत्य समस्तमानानांकं हवा इमाम् व्यक्तस्य भोगात्करगम् लौकम् चेदम् लौकम् जैलभोयानुजम् च क्षय्यम् चामृदम् वर्त्यम् चेद् ब्रह्महस्त्राविद्यम् गच्छति तस्य वा एतस्यैवामध्यायोगदाु गर्गद्य समर्थेहम् विद्वान् महाराष्ट्रपुरस्कृते प्रजगत्य खण्डापि नक्षामोरण्ये ग्रामे स्वागमधिते सर्वान् लोकान् दे सर्वान् लोकान्ता कृष्ण परस्ते ग्रतीये लोके अनुनास्यामः ज्ञं वे जातं पास्माय ग्रायन्देवा पास्मा नीनां यज्ञेन यज्ञस्य दक्षिणाय दक्षिणानां ब्राह्मणेन ब्राह्मणश्चन्द्रन्द्रनाथ भगवात्मा स्वाद्गो वैदववित्सम्ब्राय दत्तं नो यस्य भाव नागेश देशाभ्युक्ता यस्य प्रकृयण्डलस्य भाष्यविभागो अस्ति यदेकम् जनात्र प्रवेशप्रकृतस्य संसारितस्मात् सा जागाभ्यो यज्ञम् कृतमही देशेन जेन भ्रायोगादित्यस्य साविध्यम् यक्षदृशाभ्युक्ता हे अर्वानुदमापदाने वेदम् विद्रादुषमभिलापदम् चानित्येव परिवदम् सर्वाद्यन् विजेयन् प्रियम् चामये वै देवता सर्वा वेदवेद्याम् भैपदम् निगदपा श्याम् भयभ्य वेदविद्या विवेदिवै नमस्फुर्यान्ना श्रीरङ्गे देवता एव देवता प्रीणादि कृच्छदैववा वैरत्रैलक्ष्यो गाय नितिमा गन्नादि गालयप्राप्तिकृतमायम् वैलमधिङ्गायत्रे जलोक्षिणावरेणैव बलव्यप्रोत्पाधिः दृगे हवागेन शन्द्रागम् ऋयो राजे नृतयेन यज्ञ कृपना राजये सौरन्यम् परे कृशये स्वाहाध्यायमेवान्येत्रानमुदासनगम् दृत्यावाग्यो मनमुपध्युवा प्राणमभिमाः गवागै सतिधागीर्णे प्रविचलितशुद्धेत्या ब्रह्मवामिनस्थानेन्द्रमले नवै नाज्ञैनां साहिं विदान्तरं सहदाख्या वज्यं गणेया पदमात्रा गत्याख्यश्चरोधिकामानकेन्देन्दामकामाधित्वा मकामा यम् आद्यमगुदमेवात्पन्धत्कुत्वा प्रेमाञ्जयकमालयम् आञ्जन्तम्रस्म गृहस्पतेः ग्निश्चिञ्जायुभाण चायुष्पन्दराधमे ब्रह्मधर्मचार्येवान्य खण्डवित्मानवायरे दक्षिणा वलेनैव लक्ष्य पुरात्मायैव क्रमलज्जै भोक्रमज्जय सफलज्जै भोद्भवत्सफलद्वय ब्रह्म कृलज्जय ब्रह्मकालं क्रमजैव प्रकोचं भरद्वैरुं ब्रह्म वाजिङ्ग्यं भक्ष्मनाभस्येव वरं भरजैव जामेव ब्रह्मना ब्रह्मनाहं वैदरागस्य वस्त्रयत्रैराधन्मोर्थानं ब्रह्मोत्सराहनुज्ञोदयं ब्रह्मप्रजनाशिनम् गदाचारदत्र मध्यम् गच्छावत् परशितुमारं हरि एवं वेदामो नेदश्व प्रमेय दयनामीय दयनाथ सप्तमेय दयनाप्रमेय लग्लं भोदानामदिमयक्कं भोगानां ैणवत् दैनवत्सर्वम् दैनमोनवशिपुकुमारायणः े विजयाश्च देवला एकस्यां प्रतिबलं देदाभ्यश्चन मौनम दक्षिणाय विजयास्तदेव प्रियोगं देदाभ्यश्चन मौनभत्रये श्री विजयदाश्च देवलायै दरां प्रियवं देदाभ्यश्चन मौन महुजे श्री विजयाश्च देवता एवस्यां प्रयोगं देदाभ्यश्चन मौन महोर्धाय विदयाश्च देवला एतस्यां प्रतिबलं देदाभ्यश्चन मौ नमो धराय धेयाश्च देवताय तस्यां प्रियवदम् जयताभ्यक्षन मौ नमो मान्धराय धेयाश्च देवताय तस्याम् प्रिवदम् जयताभ्यक्षनमौ नमो गङ्गायमयवाम् अध्ययेव सन्दिनात्मानष्टिरञ्जीवितम् अत्रयम् दिनमो गङ्गाय मयवभ्यश्चन मौ नमो गङ्गाय ममैव कर्मणिभ्यश्च नमः ्रह्मणे नमो अस्मगे नमो कुशव्यमोधेभ्यः राजस्फलये नमो विष्णवे ओम् शान्ति ॐ महे राज्यज्ञाय काले यज्ञवलये दैवे स्वस्य लक्ष्पणः स्वस्य मार्ग चित्तमाग्यम् ओ सन्दगाजिपजन ओं शाशाशाव आधेदंबरेज्ञा मनोपक्ता राजस्पदे ऋषयनामन् त्रिशय नाम त्रिशयत्वमन्दिवत्मासम्बन्धात्मानाः जौरक्षरिकः सहपदेभक्ता वाचाधर्येण संप्रदमेनायक्षमेमाणा इवालयम् आसु अक्षरस्मये स्वामञ्जिवरेन्द्र इन्द्रियायस्वाहाभोगाः अश्विनाः धर्यो तत्कारेन सिद्धो भवताः सोमस्तोमस्य मनुरोगाः शुक्रशुक्रस्य पुरोगाः सातार्थ इन्द्रसोनाः भातादयनश्रुदत्वाहा सोर्यम् चेशक्षुव ृष्ठम् अन्तरिक्षमात्मारीर त्याध्व अच्युतराजाग्ने अच्युतमनानुपवक्ता अनायुष्यश्चिष्ये विदस्याविद्घाता वाचस्पदे नामन्य नाम हिक्रमत्माकम् नामपदि मादे व्यर्थम् गच्छनुष्यः नमो हिवे क्षमप्रशुर्ये स्वाहापत्ने पातो आतोशिखरः मनोभये भोः ब्रह्म प्रयम्भो ब्रह्मणे प्रयम्भुरे स्वाहा ब्राह्मण एकभोता स यज्ञः समे ददातु प्रजान् पुसून् यज्ञक्षमे भूयात् अग्रेभ्य भवता समर्था समेतदातु प्रजाम् पशोम् दक्षञ्जतः सर्वाच मे भूयात् भवता सप्रक्षा समेतदातु प्रजाम् पशोम् दक्षञ्जतः प्रयक्षाय मे भूयात् अन्तरिक्षतुर्भोष्ठाः समेतदालुप्रजाम् पशोम् दक्षञ्जतः पृष्ठाश्रमे भूयात् वायुः सञ्च भवता स प्राणः समे ददातुभ्रजान् प्रशोवम् प्रक्षञ्जतः कायश्रमे भूयात् सन्द्रमाक्षब् भवता सर्वोन् सञ्ज्वयाचि समे न दादृभयान् प्रशोम् प्रक्षिण्यतः ऋपश्च मे समय ददातु प्रजलाम् पशुवम् प्रक्षय्यसः कानिश्च समयप्रजानाभूयानो य भवता सोऽक्षः समय ददातु प्रजाम् पशुवन् प्रक्षय्यसः अनाधिक्यश्च भोजावम् आदिश भवता सजैशत्वे समयददानुप्रजाम् पशवन् प्रक्षञ्जसः केतत्वे च भोजाम् प्रजापतज भवताम् सर्वम् हरितास्वामेः निन्द्रावरुणापाः अभिक्षे मदत्सदायद्धाः घोरयादीराः हरितर्गैर्याः या षष्ठेन कृष्णयज्ञेन हसमहाज्येन आदित्यादक्षिणाभिः शिष्यदेवाजापतिरुज्जीतेन अन्तरिकम् परित्रेण वायुक्त्यैः अग्र्यश्रद्धया शैलेन्द्रस्य हय नार अश्वजोष्णः वाग् वायः श्रेक्षादोमस्याः पुरोनाय प्रे सुना नृक्षग आदित्यानाम् जगजे सुक्षगणश्च विरामज यद्यस्य मङ्गः प्रजामजे मित्रश्च श्रद्धा परिवक्प्रतो यश्च मरेहिणे हिणामदन्धरे अर्जन्यश्च विद्युते सरस्वः तान्तः अहसराज्यश्च ऋषस्तविष्टश्च श्चामश्च आवश्यौदयश्च ऊर्जनृता च धैर्वानाम् अध्वयः एलस्य अस्विः बाहुभ्याम् त्रे अयोमख्यमस्त्वप्रतिग्रहेश्व हैलस्नाहारामाय कामोदाता कामप्रतिगृहीता कामगुणोद्यमाय कामलेन सह प्रतिगृह्णामि नै सत्यये एका एकाम् दक्षिणाम् उत्थानत्वायवासः रुद्रायकाम् वरुणायाश्वम् प्रजापतये गुरुजम्पम् कक्षयाम् नित्याभौ किम सन्दर्वात्सदा धान्यम् आजयन्नम् ब्रह्मवोदनम् समुद्रायामः प्रत्मधानागमा पृष्ठम् वन्दमानस्तु मन्महे तव जनयच्छन्तवेदनम् समान्यादिशा राजा वैश्वानरायथम्प्रतिज्ञहेत्रे कामकामाय कामो दाता सामप्रतिग्रहेता कामम्बृह्माणे सा एता च कामदक्षिणा उत्सायत्वानाम् ये रसः प्रतिगृह्णातो हन्तः समुद्रेमनसाचरन्तम् ब्रह्माण्डलिन्दस्ये हन्धःप्रिक्षाजनानाम् एकस्तविचारः शतकम् शुक्राणि यत्रैकम् भवन्ते सेता यत्रैकम् यत्रैकम् भवन्ति समानजेन आत्मा जनानाम् पञ्चप्रविष्टशास्ताजना सर्वाः आत्मा तदत्रैवम् भवन्ते शतभातावयत्र सम्पदम् गच्छन्ति दैवये समानजेन आत्माजनानाम् ब्रह्मयन्तमन्यञ्जकरप्रत्यस्थाम् दिव आत्मानपुण्डवितारम्बरतिम् रजहतारम् भवितानुभृत्तम् राजान्तपताङ्गविते हन्तप्रविष्टम् कर्तानुमेतम् तत्रानुकम् रोपाणि प्रद्रन्थम् विपक्ष्यम् हमतस्य प्राणि यज्ञमेतम् तदः नाम आत्मानम् कवय अनिशित्यः हन्तप्रविष्टम् कर्तानुमेतम् देवानाम्बन्धनिकसङ्गृहास हमतेन वृत्तम् शतम् नितः पदे तविश्वा विश्वः शिष्मिदम् राजे इन्द्रस्य आत्मानि हितः पञ्चभाषा समृतम् देवानामायुष्प्रजानाम् इन्द्रगुण्डराजातम् साय आत्मानम् कवयामि शक्यः तस्मिन् देनाम् मध्ये तपन्तम् शिरस्य पदे कवयामि वाचैर्भुवनम् विभर्षे न्नोषकुण्डत्वम् येन गुप्तामृतेनमध्ये सुरन्नम् गोषकुण्डदशापरे विराजम् अमृतश्च बोहन्नान्ताम् कलाम् विचक्षते साधुण्डद्वासन्नः उत पाद्भाम शोचगुप्ताः शकुन्द्रम्पमानम् रच्च वदे कपयोनिभावन्ते अन्धप्रविष्टम् कर्तारमेतम् अन्तच्चन्दव किमनसाचलन्तम् पहैव सन्तम् च विहानन्ति देवाः किं न च आत्मानि सप्तभाजातः परेण सन्तम् हेवाहालयम् ब्रह्माण्डविन्दले ब्रह्म एतद्ब्रह्मणबुज्यभारन्त हे हन्त्रिबहुलागश्रियम् पक्वस्वामिन्द्र गोमदेयम् हर्च्युताम् बहुलागश्रियम् हे हेस्तमः हे देव पक्वस्वामिन्द्रगोमदेयम् हर्च्युताम् बहुलागश्रियम् अत्यमिन्द्रो यच्छतु सनकम् तदा युक्ताहरीणाम् अर्वाणाया दोहे अस्येन्द्रः समगुमानाेन्द्रस्थगितामसुमरेन्द्रियम् अय्यय मद्यधातु हरिः प्रसङ्गः पठय सुपन्नः शिलिक्षयो पथमिन्द्रः कामवदन्त पञ्चालक्रम् परिवर्तते पृथो हैन्यज्वालस्य मध्ये अजत्रम् च जन्नपदा तत्र जयते स इन्द्र कामवरम् प्रदात् हम् दर्शनेकचक्रम् हे को अष्ट नाम्नाभवनानि तत्सुखम् तजम् पश्यन् सपते दुरग्रेः तपो यत्सु वर्गितः क्षत्रम् परमोजस्य जातम् तदस्मे देवाभिवन्द श्वेतम् रस्यम् वा भुज्यमानम् अपानम् नेतारम् भुवनस्य गोपाम् किल निजक्रफलमेन मन्य स्वणेऽस्किम् गला एकरूपाः शरन्देष्किङ्गला एकरूपाः सर्वम् सहस्राणि प्रयुतानि नाम् यानाम् हैयश्वेतोरस्ये परि सर्वे प्रजाम् प्रसूम् म् पचो विश्वरूपाणि कथञ्च मस्तमसुरश्च महायः कृता पश्यन्ति मनतामनेनः समुद्रे अन्धः कवचविषक्षते मदे पदमिच्छन्तिहर्ति तानन्तम् सर्वोपद्रोशे अन्धः साङ्मानायत्तर्यम् मनीषान् धृत्यवयो निपान्ति हे राम्याः पचव त्रिलोपासन्तामेकलोकाः अद्य भवतिकलम् हयज्ञपलिङ्गा हे धान्या प्रसवा विश्वलोकाः त्रिलोपा हस्सन्तामेवकलोकाः शेषादम्भक्तानानिकरम् जिरस्तु यत्वकायपुत्रजाय हारण्याः फटवा विश्वपाः रिलोपास्तवैकरोपाः वायत्सागुह्रे प्रमुमात्रे प्रजयागुण्डायत्सम् हितवच्चरा जलम् हेवा अन्नविन्दम् गुहाहितम् हरायण्याः अथवा विश्वरोपाः रिलोपास्तवैकरोपाः एकाकम् दत्सानाम् हिरन्तिरत्रयस्वशायसुप्तशास्त्रायुवेर्याय सहस्रदेवसहस्रपादनम् विश्वसा कृत्वा सत्यदक्षानुगुरम् पुरुषनिर्वेणकम् सर्वम् यत्पोदयच्छानः हिरण्मा यामिषः आदोदात्ये कृतम् देहे यथामतेराजजायः विराजोऽपोरुषः सोऽक्षता हाश्वमता पुरः यत्पुरुषेण महिरा सैवायज्ञमसन्वतः सन्तास्याम् हेष्म सहस्रे सप्तास्यादम्परिषयः षट्सप्तकृताः शैवायज्ञम् सन्वालाः समस्याम् पूर्णम् वतम् है यज्ञम् वरे यूर्णम् चागमकृतः हेन देवायदन्ताय सप्ताः यज्ञात् सर्वभूतः अम्भदम् वृताज्यम् स्वगत्तागत्यस्माना यज्ञात्र बहुधा त्रिशत्सामानयज्ञरे छन्दाकुजयज्ञरे तस्माद त्रिषत्तस्मादजायत तस्मादस्माभयायन्त एकैकाभयायतः समापयज्ञरस्मान् तस्मानाज्ञातायावयः षट् पुरुषम् यदुः परितार्य कल्पयन् पुरङ्गाहो साहोरोच्यते ब्राह्मणमादेश बाहोरायन्यः कृतः ओरोः सध्यागुण्ज्वाजायतनजातः षट्सौर्यजायता पुरालिङ्गश्चाद्यश्च खाणाद्वायजायत म् ह्येष्णाद्यौ समवसदात् प्राद्रामम् अकल्पयन् हेदहमेकम् पुरुणम् महात्मनम् आधिक्यवन्मनितमत्सुकार सर्वाणि रूपाणि विशिक्षितेरः रामानि मृत्वारक्षद्रः योग्यम् च देवाः सा धर्माणि समान्यासन्तेभोधप्रेरः च इष्टकर्मे तस्य सप्तुषुष्कध्येषाहमेतम् पुरुषम् महान्तम् आदित्यवन्तान्धाविद्य प्रजापतिश्चयन्तः अजायमाना विचारानुकेनाम् पदमेक्येधनः देवा यो देवानाम्ब्राह्म जयन्तः देवान् सत्यं रामणो विद्याय सप्तदेवाद श्रेष्ठदेव नक्षत्राणि दोषान् हसि मौल्यार्थम् इष्ठम् मणिता सर्वम् मणिता सप्तापक्षेवा जानिफारम्भारम् पुनरं समाहव सम्भत्सारमुखारमाहुह्येण्ड सत्येन भातमुचः तेषः पुषो जलम् सन्धारहारतन्वस्थलनेव प्रार्थः यत्तद्य बहूलाव्रह्मणेशः कमजयन्त्यम् विधात्मानाः ष्पाः प्रजानाः संयज्ञामः समदेवाः विसर्गा भगवान् नमश्चयस्तु च भवान् जयते नमो वामस्तु शानापाणावि संविधानो जहितम् मुश्यासु नामादङ्कभाब्रह्मणासंविधानो तथाय सन्तमरब्रह्मनामे असच्छजानथावभोधा हेयम् यजानौभो अस्या यथाभागम् चन्द्रयते तव त्वम् अजास्य भागम् पुनरस्थमेते षद्वये त्वम् रामो अभवः महान् स्वगप्रजापतेः कुशक्रिक्ष्यमाणः हरिगुम्हरम् समनयन्ति देवाः सुप्रत्यमेतमागा है विक्रमत्वारिग्रान्विधा विधेमा अभ्यक्तगमानाय प्रलयपानाय मृत्यवेजनयन् पुनः मृत्योदप्रियम् सदैवमाम् अभिरेन्दरे प्रभोजयम् मनसा वन्दमानः नाथमानाम्बञ्जरीनाम् छप्रजानाम् मृत्यङ्कजय प्रसत्याम् प्रयामृहेयायत्वाध्यायस्पदय हृदययोध्यायस्त्वमसमविश्वादिते भवानसात्रसप्तमः ये ये गुरुपदरामकर्षन् मिक्षन्दे मुखसम्मस्यातः हस्ताभिनस्तु विकक्षा भूतो अभयशमस्यान् ज्योतिष्पदेवालयामि चो दष्कृतम् पाचालयामि चो दिनम् प्राचारयामि भास्पदेन् स्वाधारयामि द्वन्तेन्धारयामि नल्मना भवन्तेन् प्रालयामि चेत्यमानान् स्वाचारयामि रोचमानान् स्वाचारयामि तान् स्वाचारयामि प्रत्योदिषम् प्राचारयामि बहुन्द्रेन्द्राचारयामि आकृतेन्वाचारयामि प्रयाणाय स्वाहाया जायस्वाहा रियादाय स्वाहा रियादाय स्वाहा जायस्वाहा जायस्वाहा महाया जायस्वाहा गणेशाय स्वाहा दधानाय स्वाहा रक्तै स्वाहा नमः जय स्वाहा विमत्तये स्वाहा वक्ने स्वाहा चिन्तकम् सन्धारेण भव यत्नावृद्रम् तनिम् नापति हृदये हृदयेण सर्वम् रत्नाभ्याम् महादेवम् साक्यज्ञाय सातञ यज्ञवदय हे स्वनः सत्यम् मानुजयभ्यः भासम् धर्माश्वपदे सञ्चतस्पदे ॐ शान्तिश्रान्तिः ॐ नमो नमोदन्तो ॐ शान् विश्रान्तिश्रान्तिः नमो भाजया च जिताया चानुजितादस्ते भाचे नमो नमो भाचे नमो भातपदये न वेदभ्य मन्त्रगभ्य मन्त्रपदेभ्य मामृदय मन्त्रगुदा मन्त्रपदयः पलादे मन्त्रगुणामन्त्रपदे पलादान्वहेश्व शिवामदस्ताञ्जुष्टान् वेदभ्यस्तर्म वेद्यौ शर्म पृथिवे धर्मविष्टमिदं जयत कर्मजतो यत् धर्म ब्रह्म प्रजाभये भोवं वरिश्चे भुवनं वरिष्ठ तेजलवलिक्ष्य वितावलिश्च नवरिश्चे ब्रह्मवलिक्षे सत्यं वरिश्चे दत्मा अहमिदमु वर्तनवत्तं मे प्रजायै मदूनां भो यापत्तमहं प्रजायै मधूनां भोयासं प्राणामानो मृत्यात्मापाणामानो मामाहारिष्टं मधुमलिश्चे मधुजनिश्च मधुवक्ष्यामि मधु वरिक्ष्यामि मधुमये च वेद्यागम ौभागे वितरानुमदन्तु ओम् निश्चान्त्यष्टान्तेः किञ्च देवनभुलैः हिकारित्वः स्वत्रादेवैर्नाविदे अयदेवत्रयिः देवक्षत्रादविदप्रसवे अस्याहुभ्यानाम् ्रह्मणस्पदे हे वयम् सत्सयमहे उपक्षयन्तु मधुरस्तु जानवः इन्द्रः चैव ब्रह्मणस्पतिः हत्सान्मयम् पङ्किरादम् हे वा यन्तु नमः हे हे मया अनुजयुशासाम् सध्यासमद्या मकस्किरः मखायत्वा भगर्षत्वाश्येष्णे हि अत्रेः सध्यासमद्या मकस्कजिरः मखायत्वा भगर्षत्वाश्येष्णे हे वङ्गे अस्य भवदत्यर्थसमयाजनामतेः सध्यासमद्या महत्कजिरः पखायत्वा पखस्तत्वाधेरत्नेन किं रक्तजो हि सद्यासमस्या पखस्त्रिलः पखायत्वा पखक्षत्वाजेरत्न्यादिप्रजापदे सद्यासमस्या पखस्त्रिलः पखायत्वा पखस्तत्वाजेरत्न आयब्धेः प्रानन्धेः अपानन्धेः ज्ञानन्धेः चतुर्धे हि प्रावन्धेः अनाथे हिमाकं धेः आत्मानन्धेः प्रतिष्ठान्धेः मान्धे हि महिः मरुत्वामधुराकरोतु मकस्य विरोधे परिलक्ष्णः गायत्रेण स्वाचन्दता करोमि ह्येष्ठभेन स्वाचन्दता करोमि चामलेन स्वाचन्दता करोमि भगत्कलात्माभि अभिलक्ष्यभिनन्दन्धातु न्दसाय मतो चित्रावर्णया हर्षिजयः ज्योतिदय त्वाम्ना एवम् चित्रसाहा चित्र दर्शन सरोय चिस्वेतला गोधल पक्षच्चे सा भोच्चयेत्वायनम् यथानत्वा चलग्ने हागजेन त्वासम् ददाचनग्ने क्षणत्व सन्ध्यवाचम् सन्ध्योचम् सन्ध्यरेण प्रजयिष्यामः समानुदम्भे गृहीयमाणः भोद्भवस्तुनः गोविन्दवन्तः प्रजा कोनधर्मभृक्तिः हिमायश्च मुखायत्वाः तोर्यनायत्साः प्राणायस्ताः चक्षुषा यत्साः श्वाच्यायस्ताः अनजयत्साः वाचेन्द्रध्ये य यस्वाहायस्वाहायस्वाहायस्वाहायक्षो जलेत्रायस्वाद्यालये घगन्धे महाकुम्भे वगे धे अरुणमे अन्यम् पठयन् स्वनयुक्ताः नाज्ञातवन्तः आधर्मोर्गिमकेन अर्गेणाधिपत्ये आयुम्मेधाः बुद्धवके रक्षः पुस्याधिपत्ये प्रजाः सुदरात्रिपत्ये धिपत्ये स्ववत्रम् मेधाः श्रेलाधिपत्ये ब्रह्ममेधाः कर्तृम् मेधाः शैलोमेधा वस्त्रोमेधाः इशोमेधास्तमेधाः मनोमेधाः मनोरक्ष्माविभोरिपुत्राः क्षन्तामदः पयत्रयत्रिमाहे हिमाहे यदा उन्माजे सुन्दरक्रस्यायत्वायस्यामः शुक्रन्ते अन्यते सन्ते अन्यदेश्वाभिमायामः लिखदाशरस्तु हरिहन् विपर्यधन् वा हरिहन् व्यक्तंकम् हरिहन् निरन्द्रैविश्वम् गायत्रमजे सागरमजेक्षिणः छप्रदेशेमाणः अज्ञत्वा युक्तायुक्तये देवे सुरमायशिवराजयाम् देव धर्म देवेश्व कौला धर्म शतस्तम् देवे स्थायत्मागत्य ब्रह्म चेशोहम् अनुष्ये स्वायत्मागत्ये ब्रह्मस्ते भोजालम् तुलहे तुलम् मैथेः क्षिणः रजप्रज्ञेदन्ये समस्तम् राजधर्मोर्जम् राजीभाजिने भवश्यम् भवतामानम् पतानः च भुवने कुन्दः अष्टप्रातेः हनुमान् देवगीतये दैवेन पवित्रः स्वम् सौरोग्येन रोचये स्वाहागत पवित्रः स्वम् सौरोग्येनारोचत्वा देवानाम् अमत्यस्तोजाः हरे कृते हि देव यश्वान् भुवान् पदे शिश्वस्य भुवनस्पदे विश्वस्य मासस्पदे शिश्वस्य पदे शिश्वस्य लोकस्पदे शिश्वस्य देवायुवम् सर्वदेवानाम् हितामदीनाम् स्वयप्रजानाम् स्वयः कवीनाम् तन्देव देवेन पवित्राय दृष्टा सगुन्धौर्येणादृष्टा आयुक्ता समक्सभ्यम् कर्मवच्चतानाम् भवता आयोद्धात्रयोधारः हन्धलक्षप्रभो महिमारिः विश्वा शतम्भः हन्तानम् हि रातयः सन्तु स्वच्छमगेया सुरे रायत्वम्प्रसवे हिनाः बाहुभ्याः ध्यामादयै हरिचेनात्नाभिः इदयैः हरिदयैः हरसत्यैः सथायैः सावैः सचायैः अदित्या मह्येषुमालयाः सरत्रधर्मगुम् जिवंशः पुस्तकर्मम्पा हे धर्माय जिबुंशः गृहप्रयत्सोपदेशतो दानवैरवः इंद्रय बिन्व इंद्रय बिन्वे भागे नुलाकारग्त धर्में यश्चय शिवय जोमे अथ अतिरभे सो यश्च समस्तव्याम् वा परिगृह्णामि हन्तपैक्षामि देवानाम् पातु नामयम् शैजो शैजोत्रेः दृत्रम् मामारिगुण्डेः हन्तक्षत्रम् मामारिगुण्ड्रन् मामारिगुण् Suvati gulamnaya shah, yoyye shari ola bahi. Samudzaya slavada yaslaha, khalidaya slavada yaslaha. Adishya slavada yaslaha, apujadishya slavada yaslaha. Awasya vene slavada yaslaha, dhalasade slavada yaslaha. Sreevzade slavada yaslaha. har cayenne har swamadeva swaha swamaya swadadeva swaha swamaya dikkavare swaha satpadaya swastadeva yamadeva swaha trisnaya konadeva bhumadeva swaha timare swayam gita swadeva swaha vishva rakshana daya vishva devalaya swaha स्वाहाकृस्य धर्मस्य न स्वाहाग्नयज्ञाय अयतिः अस्ति न धर्मम् पाकम् हाद्यपानम् हिवाभिरोधिभिः अनुसान्त्या वा कृषले मगुदाम् स्वाहेन्द्राय स्वाहेन्द्रावण धर्मम् पाकमस्ति नाद्यमानम् हिवाभिरोचिभिः अनुसा द्विधा यज्ञम् यज्ञम् द्विविधाः दिवम् गच्छप्रतिशम गच्छान्धमन्धमपाङ्गच्छय देवेः क्षत्रायवेलिः हेलिः धर्म विषन्धानयातसङ्गयाः प्राणे साधयामि अमुनादायसङ्गेक्षे च वयम् गत्मः स्वाहाभ्यस्वाहालेभ्यस्वाः या वादयाभ्यस्वाहा ृद्रायः ते अहस्यालेदनाय ज्वनिज्वालिरागस्ताः दुर्ज केदनाय ज्वनि रागस्ताः हरिमनात्रि माता हि हे जाते अन्ये भवितेभ्यस्ता हायम् मेराः सत्य रामाञ्जे हविमलमानात्रियान्ताहे र्यः इन्द्रौताम हरिगृहेः सस्यामजय धर्मः ह्ने सह सान्तः धर्मयाधे अन्तरिक्षेतु न्दे ह्यजे हान्तय नाम जयस्वाहान्मजेभयम् विवक्तायाः सन्देशे धर्मणः अयमनक्षामानु ब्रह्मणे विधर्मणः अयमक्रामाय ल्यते प्राणस्य स्वामरतायुप्तनुवक्ताय स्वादस्य स्वाधर्मणा अयमक्रामाभियाः ये स्वक्षन्नाभि कर्म च प्रधानाः अवज्य लोकवक्वरः अन्ये चेमहिभयम् आगत्याभिलेमहे सन्ध्यमाभिम् सर्वः विद्वानम् अन्यरध्यक्षाराः स्वमहामारितः समवदनं समवेदनं संयोगचेना कृणुनायत्सोयेना एवस्तु मनोफान्दसि इन्नविदिफा अयेत्वदनाय भानेत्वनदः कृणुजयरोयेन दलुवस्यये इमिदं तस्य लवाः करण्यावक्त्स्नावः गरिणा महासुखैतिवादिदत्तः नमस्ते तुमाय इदये इष्टाव धर्मं धर्मं आवाज़ सुखेह सततं हयायुनम् तस्मिन् एतेन सुरां आदरं अजोन्यं सर्वे नवरस्ये इष्टाव हिदनागनां जगत्जानं धर्मवान् धर्मविहारः इष्टाव चुभ्यं इक्षा तिरोई मानो हि विनार्ज्ञाले तस्येन्द्र श्रणेन देनाः यम् यत्नः नवरे महिलाम् पयोशिभिः वन्दे वक्त्रानः पदे नामोरधेनागमसः सायन्त्वावायुना वययामः हस्का भागाः कन्यैमायस्ताभवनः कन्नायज्ञालेनाय दै कन्नाश्वजनताः विद्युदावलावयस्थाः का लक्ष्म स्वः विद्यलाभ स्वाहाय स्वाहा जानाय स्वाहाय स्वाहा स्वाहाय स्वाहा स्वाहा ओक्षे स्वाहाय स्वाहाय स्वाहा भोक्षै रं जिराय स्वाहा भोक्षै हृणाय स्वाहा धर्मस्य दत्तम् प्रिया मधुर अग्लेष्वयत्सरो <Sanly> यावत्सरो सरोभे चित्तत्सरो सरोधे वृन्दश्रयः हे क्वारकिणः पशः प्रजाकृशम् खल पशः हे मन्त्रमध्यम् घोरवक्षाश्रयः अमरवक्षात्रेधम् घोरात्रेत्रगाः पत्रयमाताश्चात्र माताश्च व्यम् महित्वार परिक्तवान् ख्यालय यामि भव आयतेन दयाम हरे वैगच्छाम्यह स्वहा ऐहारे परेयम स्वधर्मविभागे आगवो क्याम सवहा राजा चोदिर सवहा हिकेन अवेस सवहा परमना गेद सवहा सतेन हिदाम सवहा सव्य नवन सवहा सक्तो हम देवेने सत्वम हरेये सत्कार खादेये सत्रे इन्न लेद तिमदवलाना क्षयामित्नाय हेलिश्चामयम् यत्मः पुष्टादी राजा उग्रादिभिः राजा एः आदिरमुच्छयते हे च भयम् लः भ्रन् तत्र भरसध्वने गच्छ विक्षिमः उग्रत् वृक्ष ध्वल्वले गच्छत्कारीणायुक्ता चैत्रैत्रः न्द्रा सज्जयः <Elori> अग्ने अग्निस्वृत्या मृत्य आलम्बनस्व नमस्ते अस्तु षडेन पञ्चकृत्वस्य नमः षट्स्य नमः षड् कृतस्य नमः आरमलककृतस्य नमः अवगमितकृतस्य नमः नमस्ते अस्तु नाम इन्देः गच्छः यम् ब्रह्म संविधानौ हे हे माजम् आच्या किवास्चंदू, अच्डियाक्य संवदकाव, रजादिक्ट्यो अजी, तव्यमक्षिनिपेगिदाः, मेहकस्य देना वबे, अच्छिना अग्ने अन्मी, रंग्रेवदकिनाः, इस्वाबत रखुल्मनाःः, तिली नादूमुदाजाः, अप्यागर्स्भर्र� अजने नब्ध ते न समाधातिकं गतः चेतस्रस्तं वेहनां आहारमज्ञः स्वस्तविशोवेतः तस्त्वाकं कृमये वत्जं पयः कासपाय तथाले कंपन्मते सम्भलादपाणि ब्रह्मास्पदवर्जये स्वामि वोरेणत्त्वादिगोदानं त्रक्त्रात् तेखे यनस्ता निरधाम् मनुजायामिद्यामि हसरमत्सद्य उत्सुलिलाधये कल्के जयदन्त उज्जुलः हे गोणकले हरे शैवदा ह्यावधितः परस्ता हृदया उन्नालयानन्दे हञ्चलयम् चोग्भवस्तुभोग्स्तुभोस्तुवः पुर्वात्कायोऽत्कायो भूत्वाऽत्कायः चर्मायन्द्रमय चर्माय वेदनाय वेदनाय जिवायो भागिन्सानिवाय भागिहाय कायकायि हे अस्मि अस्मि पुनहज्ञेये जमिमि जमिदे साङ्ख्यस्तमिन्दे सांख्ययुजिमिन्दे समहगुमिन्दे समावृष्टा आयजगतः वचनात्प्रिया एतदाश्रम् फलक्षदय अन्नाब्धरिक्षम् समिधानम् वायुः समिन्ध्ये सा वायुम् समिन्ध्य सा वायुम् समिन्ध्यः सायुधादयता पक्षिया एतदाम् फलत्वजेन अन्नाब्मिन्धा कृत्वा सा मासमिध्ये साहित्यगम् समिन्ध्य राजा मे लेण राजयिष्यामि तत्सेयम् तन्मे राजराः प्रथमदासवदे ष्यामि सत्यये अन्नमे राज्याम् च सामाहित्यस्पमिन्धे साहित्यगुङ् समिन्धे सामहम् समिन्धे सा मागमिष्ठा सायुषे जल सत्यतः श्रिया सुम्भवच्छदेन अन्नाज्ययुक्ताः अन्नरिक्षमिते सानुवायुप्रन्धे सा मायम् गमिन्ध सायुषा तेजसा पश्चिया शिरसा अन्नाज्ञा विद्यन्धुम् कविन्दम् कविन्ध सा मायुषः तेजसा पश्चिया शिरसा अन्नाद्यन्दाविप्पाहारः राजापत्यामे वरित कर्षणि साधुर्याहा मे विहादिष्टिवम् सह कन्तन्मे राधे आयो पदपदारम् वदपद ब्रह्मचारिवम् सह कन्तन्मे राधे सन्मानः पवदान्मादविष्पादन्नः सौर्यः पुनः विवाहसन्तृशे या एताः पुनम् च भूयात् सुमावान् चेत् प्रचारे प्रचारान् द्वा वयः समां परिचायाः आचरतश्च प्रचयं प्रचारात् द्वा वयः सान्निध्यं व्यन्दुषमहा तामारुभागे गन्तुं जीवाः यत्महा परमो विश्वे देवाः देहानां दूरीयेत् सलोभा तुभ माधा तुशोरावला वला तत्रमेन् ज्ञानं तवनां ज्ञानं यत्महा चेतलोभाः केमिदस्ति गृहिदः ेवभाषितम् सा प्रपज्जयतु अप्रवज्जयतु अप्रवज्जयतु भवतु अप्रभज्य राजम् प्रवज्य देवतान् प्रवज्य प्राणमाखनम् प्रवज्य प्रजापलेन जम्ब राजवन्दम् अप्रमज्य वाम् प्रवज्य अन्तरे क्षणम्बन्धम् गणदजय असल्मदाच्चास्वत्यमाञ्जया स्वचास्वस्तिमानदाने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 ए आलय क्षयम् न प्रजाल क्षयम् न आगमनं च तदं शरणं प्रजाल देवो अभेद्यस्तके नाम विदार्य स्वयनां सदम भवास्योति हे श्रेष्ठ वर्णां मे गालियोना सुमाना अवद्धान्तम मे बोध्रक्षम मघरप्राजे रोमांच स्नोयेति या भवन्त केते ये क्षिया वितुलं सुना जिनावार्यानां खन्दे तर्या। अवयसंमेष्यन् वैक्लानाह अवबोधे समजमिच्छात तस्मे होया भर्यात्मा नेति स्वयम् दृष्टा अवोविष्टाया बोष्टां कुञ्जे द्रणनां। मेहेनैस्तु देवे दोषो मनोमालवत् समायेयय नमः। श्रेयि महातरः अपसारंगमहोय तक्क्यादिमतः। शान्ता मे शान्ता समेतो अध्यकं शान्तम् दायिन शान्तम् गन्वे शान्तं श्रयु समेतो जौ शान्ता नित्येन शान्ता सा मे शान्ता सुयुण समेव ज्यौश्चान्तरं गुरुभाविष्टान्त्यष्टान् दृष्टं नमार्गौश्चान्त ्या सर्वशान्त्याक्यम् विमले निष्मले शान्तिम् कलम् निशान्तर्मे अस्तु शान्तिः चेत् तक्रे कविलकलव मेधा प्रचा श्रद्धालक्षम् धर्मश्चैरानि मम तन् गमन तिष्ठङ्गमावित्रे चक्रे कलव मेधा प्रतिष्ठा श्रद्धालस्मिन् धर्मश्चैराणि महामाहाज जलिनम् भवनाम्भवान् जनाम् जय तस्मै नमः गुरुणानां जिज्ञाले महानस्य यत्समज्ञा स्वमार्गभवान् इदं सत्त्वरियाय वदनं नमोनमः ब्रह्मात्मोऽन्यदेव ब्रह्माहि कौ ब्रह्मावमजराये यमबुधिने तुर्मामेदार सुमेन नमः तस्मै कन्दिरं दाहालुखेम पदे नमः गताहुयेदं महाकारिणामस्य दोहितस्य ब्रह्मत्रान् ओम् शान्तिः मदन्तु ॐ शाम् विश्रान्तिश्रान्तिः ॐ शाम् विश्रान्तिश्रान्तिः हेरावर्गतस्कामाः हे सुरन्नः प्रथमयचनिष्ठाय सर्वेषाम् रत्नस्महा केषाम् कुरुक्षेत्रम् जैविराजेन अस्तेकान अरोड़किनार्दा देज्ञ पूट्ध उस्तार्दा अरेनच्यकनार्दा मर उस्तार एदारम मखम्मे खवन्यदार्च़ संध्यकान जदा एदार्वान आक्यामदे संदेवान लिवाएं ज़ा वरुक्तमाना सच्यान पाकरस्या अग्या सत्स inadvert exam anlam dской llay c tgh paupen sannham khabonad bay sexy deli withdraw allост k evolved understandини em 13 little yudhi abdyaJust manneemen 14 little yendura against this 14 little yondaka對吧 bat tum 14 little y tardin学 privyabdha 15 little yves alupa cat shamata hab fail तत्मैरागाविष्मया रत्त्वम् तस्माभिमहे अथ वन्थयाम यत्र तस्मात्पदे गायत्रिखनन्ते अथवाभिन्वन्ते सायव्यादानम् तस्य यत्रावम् यस्यवदय सद्धर्मस्य धर्मत्वम् महतो सन्महावेरस्य महावीरत्वम् सस्याज्ञत्वम् दात्वम् ौम् गणामहे ग्रह एव नाम गृहन् हेदव्यज्ञस्य वर्गम् वृक्षे शैज्ञाते च हसुरे अवाचिरोध अभिवर्चन लागें देगें अप्मालेदा प्याप्त बजागिदा एप्पर रिशाः आदेपन जो रिष्पदो बात्ये शदु पहेजन लोगें शदु पारप्परवा हुदो नेदावन्दे तरस्रादवा इस्वेवपड़ दस्कने शंदादू देवेप्दो बात्र ैवन्ते ब्रह्मराजो च गृहाय अगतं हि निदाणं वर्णां प्रदीयारे न नययाते यत् परं नदियारे हि योऽयं हि न वश्रेणो वाक् प्रदीयारे एतयं वर्दन्ते दायत्री सम्लागच्छत् चोङ्गना सत्यवकारोऽपि यदोक्षये अपि येन देहात् परावदे रतिसत्प्रागिरद यज्ञस्य रत्नम् भरे देवश्चय अस्मि बाहुभ्यानित्याः अस्तिभ्यानित्यायत्यैः अद्य च लब्धे अभ्रेश्चान्तेः अभ्रगद्दैवत्याः शक्लो वा यज्ञस्वैत्याः प्रजवाः हिज्ञायन्द्रयम् अञ्जला भवेत्याः हेवा यज्ञाः हेवा नैव यज्ञः कुलय ैवोकाः एतसंभरे <sous -urry sahalia> <och> <concrete> <barbecue> <Beyonce> ेव्यावन्धे ङ्गे यज्ञायैवृन्धयम्भारा भवन्तः श्यामानैव यज्ञः सत्कृशिवत्सम्भरे यच्छाम्यानाम् कोनाम् कर्म्यान् करो आरण्यशुलाय शैलने वा मधुत्वार्पयेष्टगं हृदये शैतान्येव लीनानिर्पये सत्कराविष्टगंसे अथवा दन्ताय दो दो। पर पर ये कृष्णाजिलम् प्रशये हरिस्तु हरिभेत्यभिप्राण्यायकुर्वन्नभिप्राण्यान् प्राणार्थये अपहारे कालानाम् वेदाय सप्तवर्ग्यम् च नित्यम् चान्तरेयाय देयाय दुष्कर्मस्याय सप्तात्मना वा केशाय हैलो सैजो नः शैलप्रवर्यः शैलदेव भगवत्सि मकः सप्तैलसिरः शत्रवर्यः सप्ता एवमाः शैत्यश्च वजयशै साहि करोहम् करोति लोकाः शेषाम् लोकनामात्येन सन्दोभिः करोति वेल्यम् वैगुन्धा श्रीराभिरङ्गे संविधम् कियन्तम् करोदे यज्ञवरुषा संविधम् कियन्तम् करोदे शेतावत्ते पुरुषम् अवर्मिदम् अवरभिवरुध्ये हरिदेव राजन चोवा स्वसेलो निष्माया प्रसा स्वसेपतेचहा अधुमा अरिच्छमदास्ता ससिमनालु देक्ले चन्दा रेवेम सोरेदे अछिले दानगो जरेन पेटचहा एने गला त्रिदहाये पारलो हिद्धा ऐत्रयवे विजान जयै सिद्धेस्वच असारयवेदे कालानक्षुभागाय ः श्रीभोगेः इमानयमात्रे नवकान् कल्पयते असक्षे श्रीलमाहोम् विशात् जयेत्याः वधुरक्षाय ेवैर्यो भवे पशुभरिवैश्वर्याः पशुरेवैर्यो भये देवत्रागः हृदखेलम् परमे देवैनम् वयसाक्षणस्य ऋज्ञामये गृन्दाश्रणस्य सन्धिवाजनित्याःध सन्धिकाः गोचमेवाबन्ध सन्ध्यविरित्याः हरिरवाकः ब्रह्मे ब्रह्माना क्षरेण्यः असौ रोधानन्दः कक्षसा अनुमानम् प्राणाः दे प्रस्तावना सर्वे जायते नैवं ब्रह्मा जायते स्वायत् स्वयम् इत्तानह तानै वेदमाने तथाते तन्दवमन्न्हा प्राणाना वन्नासिते परलोके अलोचलोवक्के इत्तोऽयं प्राणप्रयमादे तस्य भवति देनः भवति आनना भवति सत्यामद्ये श्रवणायेन तेन सत्यं इत्तोऽयं पूर्णं जायते नमः नमो गयदा भवे पोर्छेन इत्यं बिरेव समाधेन गे ताः भवेत् जो भवे कारणेव एव मामे तु भावे सत्यभावे भक्तवेते रञ्णा प्राणाः कारणेवासिं तु भावे एव स्थाल विदावत् प्राणा कृत्याः तेन विनेहं अर्चये प्रमेयं त्रम दत्तस्य अस्य एव नमो नमस्ते अद्याजिनाहय श्रीलवा एतस्य महागुम्भेत्याह्यजः ब्रह्मकारिणा वदन्ते हेलयत्रियः खलु किरणः वत्समानय सत्यमस्तरा विदुरवृतमाने कार्याणि एव छिद्रेन तुदाति छिद्रोमयनुसोनमन्मरिदा इतिदाहुव्याः पावरणके अलारपर्वरवत्ते देवा मदिरेसि यमवेम अलसार्धोरीपुत्रा सत्येनो परिदिक्खातेन मादलया कुपुदराने होयामा परिगुज्येरक्षायम जायन्जारी त्रस्तमजिनित्यः यो हरे तस्मान् तस्माना श्रावे प्रेरयोः ङ्गैव्यङ्गदा भवन्धे साधुभवन्धे साधुसमादाः संवत्सरः संवत्सरवन्ध्यत्रयो माधैत्याः क्षत्रियोपे चैवत्रयोमासवृन्धे अन्तरक्षस्याङ्गत्यावृत्ते येन तव ददात् ते कवैत काजं येन मे विदितो भावे अमोष्या हरजाहया असो आज्ञा रेवेनु भैरवपरिगभादे अरहं नरेषां साजिकान् सन्लेख्यः तव केरेण वैगले नयत् सोऽदृष्टे त्वमदिनागदवशेषत् ज्ञान्यावत्ते सन्तोदेवेनाञ्जलके असवाधिगोणोरे तावि तु तानेवेदिमाले तु ताने यन्ते प्राणः स्यन्ते शर्पणे षत्वम् मध्यन्ते षड्वान् धर्मे मालेभ्यान् धनोच्चपरिवर्ये एतद् मवा चो देहवरा देहाविकाराः तस्मात् चम्मोरे तस्मात् च परितेन तथामरियाये आपनो यते भाया सारगै गरित्राणि अभ्यधङ्गन्धो मनन्ते प्राणनामक्षृङ्गारेवच्ये चिलचोन् मनन्ते दृष्टापयरे संजे ओधन्धोन् मनन्ते लगप्य नमस्ते सर्वदाे सप्तादेव मधुरेण द्वौत्रयेन सन्दयत्याह अग्रे मधुरणा द्वौत्रयेन सन्ददात्याहुरस्य हैत्याह श्चाद्वयजागरेण गन्धयत्याह वरुणेण पश्चाद्ग्वागरेण गन्धः समाजज्वराजयात्याः आदिरमे रामाजा मध्यस्थे सम्भार <thing 1952> धर्म संज्ञा वित्याः अजयलेन मेरते इजस्वी लोजिस्पा, सुष्टा अजम्ही जिस्पा, तो जो आप जारिको जो जो जो जो जो जो जो जो आना हाँ